श्री श्रीपरमात्मने नमः अथ कथासरित्सागरः लम्बकः प्रथमः तरङ्गः पञ्चमः एवमुक्त्वा वररुचिः पुनरेतदवर्णयत् कालेन योगनन्दोऽथ कामादिवशमाययौ गजेन्द्र इवमत्तश्च नापैक्षतस किञ्चन अकाण्डपातोपनता कम् न लक्ष्मी विमोहयेत् अचिन्तयम् ततश्चाहम् राजा तावद् विशृङ्खलः तत्कार्यचिन्तयाक्रान्तः स्वधर्मो मेवसीदति तस्माद्वरम् सहायम् शकटालम् समुद्धरे क्रियेत चेद्विरुद्धम् च किं स कुर्यान्मयि स्थिते मयाभ्यर्थ्य राजानं सोऽन्धकूपतः उद्धृतः शकटालोऽथ दुर्जयो योगानन्दोऽयम् स्थिते वररुचावतः आश्रये वैतसीम् वृत्तिम् कालम् तावत् प्रतीक्षितुम् इति सञ्चिञ्च स प्राज्ञः शकटालोमदीक्षया अकरोद्राजकार्याणि पुनः निर्गतो नगराद्बहिः श्लिष्यत् पञ्चाङ्गुलिम् हस्तम् गङ्गामध्ये व्यलोकयत् किमेतदिति पप्रच्छ मामाहूय स तत्क्षणम् अहम् च द्वे निजाङ्गुल्यौ दिशि त्यामदर्शयम् तेन तस्मिं स्थिरोऽभूते हस्ते राजाति विस्मयात् भूयोऽपि तदपृच्छन् माम् ततश्चाहम् तमब्रवम् पञ्चभिर्मिलितैः किम् यत् जगतीह न साध्यते इत्युक्तवानसौ हस्तः स्वाङ्गुळी पञ्चदर्शयन् ततोऽस्य राजन्नाङ्गुल्यावेते द्वे दर्शिते मया ऐकचित्त्ये द्वयोरेव किमसाध्यं भवेदिकी इत्युक्ते गूढविज्ञाने समतुष्यत्ततोऽनृपः शकटालो मद्बुद्धिम् वीक्ष्य दुर्जयाम् <Sessizhi> एकदा योगनन्दश्च दृष्टवान् महिषीम् निजाम् वातायनाग्रात् पश्यन्तीम् ब्राह्मणातिथिमुन्मुखम् तन्मात्रा देवकुपितो राजा विप्रश्यतस्य सः आदिशद्वधमीर्ष्या विवेकपरिपन्थिनी हन्तुम् वध्यभुवम् तस्मिन्नीयमाने द्विजे तदा अहसद्गतजीवोऽपि मत्स्यो विपणिमध्यगः तदैष राजा तद्बुद्ध्वा वधम् विप्रश्य मामपृच्छच्च मत्हासस्य कारणम् निरूप्य कथयाम्येतद् इत्युक्त्वा निर्गतम् च माम् चिन्तितोपस्थितैकान्ते सरस्वत्येवमब्रवीत् अस्य तिष्ठरात्रावलक्षितः अत्र श्रोष्यसि मत्स्य हासहेतुमसंशयम् तच्छ्रुत्वा निशितत्राहम् गत्वा तालोपरि स्थितः अपश्यम् राक्षसीम् घोराम् बालैः पुत्रैः सह गताम् सा याजमानाम्स्तान् अवादीत् प्रतिपाल्यताम् प्रातर्वो विप्रमांसानि दास्याम् यद्यहतो न सः कस्मात् स न हतोऽद्येति हि दृष्ट्वा मृतोऽपीह मध्यो हसितवानिति हसितं किमुते पृष्टा भूयः सुतैश्च सा सर्वा राज्ञोऽपि विप्लुताः सर्वत्रान्तः पुरेह्यत्र स्त्रीरूपाः पुरुषा स्थिताः हन्यतेनपराधस्तु विप्रैत्यहसत्तिमिह भूतानाम् पार्थिवात्यर्थनिर्विवेकत्वहासिनाम् सर्वान्तश्चारिणाम् हेता भवन्त्येव च विक्रियाः एतत्तस्य वचः श्रुत्वा ततोपक्रान्तवाहनम् प्रातश्च मक्षहासस्य हेतुम् राज्ञे न्यवेदयम् प्राप्य चान्तः पुरेऽभ्यस्तान् स्त्रीरूपान् पुरुषांस्ततः वह्वमन्यतमाम् राजा इत्यादि चेष्टितम् दृष्ट्वा तस्य राज्ञा विशृङ्खलम् खिन्ने मयि कदाचिच्च तत्रागाच्चित्रकृवः अलिखत् स महादेवीम् वाक्चेष्टारहितं च तम् पटे सजीवमिव तच्चित्रम् वाक्चेष्टारहितम् त्वभूत् तम् राजा तुष्टो वित्तैरपूरयत् तम् च वासगृहे एकदा च प्रविष्टस्य वासके तत्र सा मम सम्पूर्णलक्षणा देवी प्रतिभाति स्म चित्रका लक्षणान्तरसम्बन्धादभ्यूह्य प्रतिभावशात् अथा कार्षमहम् तेन, क्षण गनह प्रविष्ट योगनंदोथ ल व्यलोकयत केयति सोपृच्च महतरादस्म देव्या दिव्या प्रदेशस्थम् इमं नान्यो मया विना वेत्ति तज्ज्ञातवानेवम् असौ वररुचिः कथम् छन्नः कृतो मुना नूनम् ममान्तःपुरविप्लवः दृष्टवानत इति सञ्चिन्तयामास योगनन्दः क्रुधाज्वलन् जायन्ते बतमूढानाम् संवादा अपि तादृशाः ततः स्वैरम् समाहूय शकटालम् समादिशत् त्वया वररुचिर्वध्यो देवी विध्वंसनादिति यथा ज्ञापयसीत्युक्त्वा शकटालोगमद्बहिः अचिन्तयच्च शक्ति वररुचिम् न मे दिव्यबुद्धिप्रभावोऽसौद्धर्ता च ममापदः विप्रश्च तद्वरम् गुप्तम् सम्प्रति स्वीकरोमि तम् वधान्तम् कथयित्वा मे शकटालोऽब्रवीत्ततः अन्यम् कञ्चित् प्रवादाय हन्यहम् त्वम् च मद्गृहे प्रच्छन्नस्तिष्ठ मामस्मात् रक्षितुम् इति तद्वचनाच्छन्नस्तदगृहे एव स्थितोऽभवम् स हतवान् हतवान्कञ्चिन् मद्वधाख्यातये निशि एवम् प्रयुक्तनीतिम् तम् प्रीत्या वोचमहम् तदा एको मन्त्री भवान्येन हन्तुम् माम् नः कृता मतिः शक्यो राक्षसो मित्रमस्ति ध्यातमात्रागतो विश्वं ग्रसते समधिक्षया राजा द्विहेन्द्रदत्ताख्यः सखा बद्ध्यो न मे द्विजः तच्छ्रुत्वा ततो ध्यातागतम् तस्मै तद्रक्षोऽहमदर्शयम् तद्दर्शनाच्च वित्रस्तो विस्मितश्च बभूव सः रक्षस्यन्तर्हिते तस्मिन् शकटालः समाम् पुनः कथन्ते राक्षसो मित्रम् सञ्जात इति पृष्टवान् पूर्वम् रक्षार्थम् नगरे भ्रमन् रात्रौ रात्रौ क्षयम् प्रापदेकैको नगराधिपः तच्छ्रुत्वा योगनन्दो माम् अकरोन् नगराधिपम् भ्रमम् चापश्यमत्राहम् भ्रमन्तम् राक्षसम् निसी स च मामवदद् ब्रूहि विद्यते नगरेऽत्र सुरूपा स्त्रीदि तच्छ्रुत्वा विहस्याहतमब्रवम् या यस्याभिमता मूर्ख सुरूपा तस्य सा भवेत् तच्छ्रुत्वैव त्वयैकेन जितोऽस्मीत्यवदत् माम् पुनश्चाब्रवीदसौ तुष्टोऽस्मीति सुहृन्मे त्वम् सन्निधास्ये च स्मृतः इत्युक्त्वान्तर्हिते तस्मिन् यथा गतमगामहम् राक्षसो मित्रतांगतः। गतः इत्युक्तवानहम्भूयः शकटालेन चार्थितः गङ्गामदर्शयम् तस्मै मूर्ताम् ध्यानादुपस्थिताम् स्तुतिभिस्तोषिता सा च मया देवी तिरोदधे बभूवशकटालश्च सहायः प्रणतो मयि एकदा च समन्त्री ुतस्थं खिन्नमब्रवी सय कि दीयते थया किचाररता अचिराच भुद्धि तथा कथा शृणु आदित्य वर्मना मात्र बभूवन्ुपति पुरा शिव वर्माध्य मंत्री चाभून्महामतीस्तकदा चैक राी गर्भम धार तदबुद्वा स नृपो पृछतीक्षिण वर्षद्वयम् प्रविष्टस्य वर्ततेऽन्तःपुरेऽत्र मे तदेषा गर्भसम्भूतिः कुतः सम्प्रति कथ्यताम् अथोचुस्ते प्रवेशोऽत्र पुंसोऽन्यस्यास्ति न तच्छ्रुत्वाचिन्तयद्राजा नूनम् द्रोही सयेवमे एव मे प्रकाशम् चहते तस्मिन्नपवादो भवेन्मम इत्यालोच्य सतम् युक्त्य शिववर्माणमीश्वरः सामन्तः शान्तिकम् सख्युः प्राहिणोद्भोगवर्मणः तद्वधम् तर लेख सन्द्य तदनम सनपस्त्रेख या मंत्रिण सहे गीलायता साराजी रक्षिल्ध पुसा स्त्रीण सह वर्मा चानुतापो भवत्तदा, किम्मया मैयादृशो मंत्री दिती। अत्रांतरे अरे साप निकटम भोगवर्मण सचोपागाल लेखमादाय सचोपागाख वाचयित्वा च तम् लेखमेकान्ते शिववर्मणे शशम् सवधनिर्देशम् भोगवर्मा विधिर्वशात् शिववर्माप्यवोच तम् सामन्तम् त्वं त्वम् व्यापादय माम् तच्छ्रुत्वा विस्मयाविष्टो भोगवर्मा जगादतम् किमेतद्ब्रूहि मे विप्र शापितोऽसि न वक्षि चेत् अथ वक्ति स्मतम् हन्येयम् यत्र भूपते तत्र देशे देवो न तच्छ्रुत्वा मन्त्रिभिः सार्धम् भोगवर्मा व्यचिन्तयत् दुष्टः स राजा नाशमस्माकमिच्छति किम् हि वधका गुप्तगामिनः तस्मान्मन्त्री न बध्योऽसौ रक्ष्य इति सन्च रक्षा भोगवर्मण शिववर्मा ते प्रेशिभ क्षण प्रत्याय जीवन समंत्री मंत्री प्रज्ञया स्वया शुद्धिश्चा जाता नि धर्मोन्य भ इत्थम् तवापि शुद्धिः स्यात् तिष्ठ तावद्गृहे मम कात्यायनृपोऽप्येषः सानुतापो भविष्यति इत्युक्तः शकटालेन छन्नोऽहम् तस्य वेश्मनि प्रतिक्षमाणोऽवसरम् तान्यहान्यत्यवाहयम् तस्याथयोगनन्दस्य काणभूतेः कदाचन पुत्रो किरण्यगुप्ताख्यो मृगयायै गतोऽभवत् अश्ववेगात् प्रयातस्य कथञ्चिद्दूरमन्तरम् एकाकिनो वने तस्य वासरः पर्यहीयत ततश्च ताम् नेतुं नेतुम् वृक्षमारोहति स्म सः क्षणात्तत्रैव सिंहेनभीषितः स दृष्ट्वा राजपुत्रम् तम् मतिम् मानुषभाषया मा भैषेर्मम मित्रम् त्वम् इत्युक्त्वा निर्भयम् व्यधात् विश्रम्भाद्रुक्षवाक्येन राजपुत्रोऽथ सुप्तवान् रुक्षस्तु जाग्रदेवासीदर्हः सिंहोऽथ सोऽब्रवीत् रुक्षमानुषमेतम् मे क्षिपयावद्व्रजाम्यहम् ऋक्षस्ततोऽब्रवीत् पाप न मित्रम् घातयाम्यहम् क्रमादृक्षे प्रसुप्ते च राजपुत्रे च जाग्रति पुनः सिंहोऽब्रवीदेतमृक्षम् मे क्षिपमानुष तच्छ्रुत्वाऽऽऽऽऽऽऽऽऽत्मभयात्तेन सिंहस्याराधनाय क्षिप्तोऽपि नापतच्चित्रम् ऋक्षोदैव प्रबोधितः मित्रद्रोहिन् भवोन्मत्तः इति शापमदाच्च सः तस्य राजसुतस्यैतद्वृत्तान्तावगमावधिम् प्राप्यैव स्वगृहम् प्रातरुन्मत्तोऽभून्नृपात्मजः योगनन्दश्च तद्दृष्ट्वा विषादम् सहसागमत् अब्रवीच्च सकालेऽस्मिन् जीवेद्वररुचिर्यदि इदं ज्ञायेत तत्सर्वम् धिङ्मे तद्वधपाडवम् तच्छृत्वा वचनम् राज्ञः शकटालो व्यचिन्तयत् हन्तकात्यायनस्यायम् लब्धः कालः प्रकाशने न सोऽत्रमानी तिष्ठेच्च राजा मयि च विश्वसेत् इत्यालोच्य स राजानम् अब्रवीद्याचिताभयः राजन्नलम् विषादेन जीवन्वररुचिः योगनन्दस्ततोवादिद्रुतमानीयतामिति अथाहं शकटालेन योगनन्दान्तिकम् हठात् आनीतस्तम् तथाभूतम् राजपुत्रं व्यलोकयम् मित्रद्रोहकृतोनेन देवेत्युक्त्वा तथैव सरस्वती प्रसादेन वृत्तान्तः कथितो मया ततस्तच्छापमुक्तेन स्तुतोऽहम् राजसूनुना त्वया कथमिदम् ज्ञातम् इत्यपृच्छत् स भूपतिः अथाहमवदम् राजन्लक्षणैरनुमानतः प्रतिभातश्च पश्यन्ति सर्वं प्रज्ञावताम् धियः तद्यथा तिलको ज्ञातस्तथा सर्वमिदम् मया इति मद्वचनात्सोऽभूत् राजा लज्जानुतापवान् अधारादृतसत्कारः लाभवान् स्वगृहम् गतवानस्मि शीलम् हि विदुषाम् धनम् प्राप्तस्यैव च तत्रत्यो जनो रोदीत् पुरो मम अभ्येत्य राजा हतम् निशम्य उपकोशाग्निसाद्वपुः अकरोदथ मातुस्ते शुचा हृदयमस्फुटत् तच्छ्रुत्वाभिनवोद्भूतशोकावेगविचेतनः सद्योऽहमपतम् भूमौ वातरुग्णा इव द्रुमः क्षणाच्च प्रियबन्धुविनाशोऽर्थः शोकाग्निः कन्न तापयेत् आसंसारम् जगत्यस्मिन्नेका नित्याख्यनित्यत तदेतामैश्वरीम् मायाम् किम् जानन्नपि मुक्यसि वर्षेण वचनैरहम् बोधितोऽथ यथातत्त्वम् कथञ्चिद्धृतिमाप्तवान् ततो विरक्तहृदयः त्यक्त्वा सर्वम् निबन्धनम् प्रशमैकसहायोऽहम् तपोवनमशिश्रियम् दिवसेश्वथ गच्छत्सु अयोध्यात उपागच्छद्विप्रयेको मयि स्थिते समया योगनन्दस्य राज्यवार्तामपृच्छयत् प्रत्यभिज्ञायमाम् सोऽथ स शोकमिदमब्रवीत् शृणुनन्दस्य तत्सकाशाद्गते लब्ध्वावकाशस्तत्राभू चकटालश्चिरेण सह सचिन्तयन्वधोपायम् योगनन्दस्य युक्तितः क्षितिम् खनन्तमद्राक्षी चाणक्याख्यम् द्विजम्पथि किम् भुवम् खनसीत्युक्ते तेन विप्रोऽथसोऽब्रवी दर्भमुन्मूलयाम्यत्र मूलयाम्यत्र ह्येतेन मेक्षतः तच्छ्रुत्वा सहसामंत्री कोपनं कोपनम् क्रूरनिश्चयम् तम् विप्रं योगनन्दस्य वधोपायममन्यत नाम पृष्ट्वा ब्रवीत्तम् हे ब्रह्मन् दापयामि ते अहम् त्रयोदशी श्राद्धम् गृहे नन्दस्य भूपतेः दक्षिणातः सुवर्णस्य लक्ष्यम् तव भविष्यति भोक्ष्यसे धुरिचान्येषाम् े तब्गृ ममुशालस्त चाणक्यमये दर्शय तंज राे सशे चत स ग चाणक्यो धुरी श्राद्धुपत्बंधुना प्रश्न मैदुरमात्म तद्वा शकटाल्ञप्त नंदूपति अब आदीन्ना परोग्यधुर्धुरी ति आगत रााशकलो भयानक नमे न मेपराध्वा चाणक्याय नवेदकोपे चाणक्यो ज्वलन सता मुक्ति शिखा त्र प्रतिमकोय सप्तर्मया विनाश्यो ततो विनाश्यो बंधनीयाच तथुनाशिखाव कोगनंदयित अलक्षित स्वेहेत शकटालोंवेशोपे दत्ते गुप्त तेन मंत्रि चाणक्योज क्वा गृत साधयत तद्वशादनंदोथ दाहज्वरम्वाप्यसतमें दिवसे प्राप्ते पंचवत्त हवा हिण्यगुप्त शकटाल पूर्वनन्दसुते लक्ष्मी चन्द्रगुप्ते निवेशिता मन्त्रित्वे तस्य चाभ्यर्थ्य बृहस्पतिसमम् धिया चाणक्यम् स्थापयित्वा तम् स मन्त्रीकृतकृत्यताम् मन्वानो योगनन्दस्य कृतवैरप्रतिक्रियः पुत्रशोकेन निर्विण्णः प्रविवेशमहद्वनम् इति तव मुखाच्छ्रुत्वा विप्रस्य सुतरामहम् काणभूते गतः खेदम् सर्वमालोक्य आगतो विन्ध्यवासिनीम् तत्प्रसादेन दृष्ट्वा त्वाम् स्मृता जातिर्मया सखे प्राप्तम् दिव्यम् विज्ञानं विज्ञानम् मयोक्ता ते महाकथा इदानीम् क्षीणशापोऽहम् यतिष्ये देहमुज्झितुम् त्वम् च सम्प्रति तिष्ठेह यावदायातितेऽन्तिकम् शिष्युक्त गुणाड्याख्यस््यक्तात्रोज सोपिह क्रोधा दिव्या शक्तो गणोत्तम माल्यवान्ना मत तस् कथनीया महाकथा ततस्ते शापनिर्मुक्तिः तस्य चापि भविष्यति एवम् वररुचिस्तत्र काणभूतेर्निवेद्य निवेद्यसह प्रतस्थे देहमोक्षाय पुण्यम् बदरिकाश्रमम् गच्छन् ददर्श गङ्गायाम् शोधशाकाशिनम् मुनिम् तत्समक्षम् च तस्य ऋषेः कुशेनाभूत्करक्षतिः ततोऽस्य रुधिरम् निर्यत्तेन शाकरशीकृतम् अहङ्कारपरीक्षार्थम् कौतुकात् स्वप्रभावतः तद् दृष्ट्वा ततो वररुचिः किञ्चिद् विहस्येव जगादतम् जिज्ञासनाय रक्तन्ते मया शाकरसीकृतम् यावन्नाद्याप्यहङ्कारः परित्यक्तस्त्वया मुने ज्ञानमार्गेद्यहङ्कारः परिघो दुरतिक्रमः ज्ञानं विना च नास्त्येव मोक्षो व्रतशतैरपि स्वर्गस्तु न मु मुक्षूणाम् क्षयीचित्तम् विलोभयेत् तस्मादहम् कृतित्यागाज्ञाने यत्नम् मुने कुरु विनेयैवम् मुनिम् तेन प्रणतेन कृतस्तुतिः तम् बदर्याश्रमाद्देशम् शान्तं वररुचिर्ययौ अथ स निविडभक्त्या तत्र देवीम् शरण्याम् शरणमुपगतोऽसौ मध्यभावम् मुमुक्षुः प्रकटित निजमूर्तिः सापि तस्मै धारणाम् देहमुक्त्यै दग्ध्वा शरीरमथ धारणया तया तद् दिव्याम् गतिम् वररुचिः स निजाम् प्रपेदे च काण भूतिरासीदमीप्सित गुणाढ्य समागमोक्तः इति महाकवि श्री सोमदेव भट्ट विरचिते कथा सरित्सागरे कथा पीठलम्बके पञ्चमस्तरङ्गः